नमस्सर्वेभ्यः अस्माकं योगनिष्ठितजीवनमिति मध्ये भवतां सर्वेषां स्वागतं करपत्रस्य आरम्भात् प्राक् किञ्चित् अत्र पश्यामः अत्र सामान्यतया लोके जनाः लौकिक इच्छायाम् एव अथवा इच्छास्तु व्यस्ताः सन्ति यदा यदा परमात्मानं प्रति चिन्तयन्ति तदानीं तत्र सर्वदा मनसि लौकिक इच्छा लौकिकविषये एव चिन्तनं भवति लौकिकविषयेषु किमपि इच्छा भवति तस्य विषये एव प्रार्थना भवति मा मह्यम् एतत् ददातु मह्यं मम कृते एतत् ददातु अत्र मम मम पुत्रस्य किमपि भवतु कुत्रस्य विवाहः भवतु धनं भवतु अथवा अन्यत् किं थीम, किमपि एवं भवति परन्तु परन्तु एतादृशलौकिक इच्छा यदा लौकिक इच्छायाः विषये यदा प्रार्थना भवति तदानीं तत्र किम् अवगन्तव्यम् इति चेत् तत्र लौकिकविषयाः तत्र क्षणिकाः क्षणिकाः सन्ति तेन निरन्तरसुखं कदापि न लभ्यते निरन्तर आनन्दं कदापि न लभ्यते तर्हि यदा तत्र लौकिकविषयेषु प्रार्थना भवति तदानीं परमात्मा तु तस्य विषये अनुग्रहम् अपि करोति तर्हि तदानीं तेन आध्यात्मिकलाभः न लभ्यते लौकिकविषयेषु प्रार्थना भवति चेत् तदानीम् आध्यात्मिकविषयेषु लाभः न भवति तर्हि यदा प्रार्थ यदा तत्र परमात्मानं प्रति अस्माकं सम्भाषणं यदा भवति तदानीं किं प्रष्टव्यम् इति चेत् लौकिकविषयेषु प्रार्थना न भवेत् लौकिकविषयेषु लौकिक इच्छा इच्छायाः पूर्त्यर्थं प्रार्थना न भवेत् परन्तु किं प्रष्टव्यं परमात्मानम् इति चेत् भक्तिः भक्तिः इति बहु महान् विषयः अस्ति यदा आ, प्रा यदा परमात्मानं प्रति अस्माकं सम्भाषणं भवति तदानीं सर्वदा भक्तिः एव प्रष्टव्या न तु लौकिकविषयाः लौकिक विषयेषु यदि लाभः लभ्यते चेदपि तदानीं ता तादृशविषय विषयेन निरन्तरसुखं निरन्तर आनन्दं न लभ्यते तत्तु केवलं क्षणिकमेव तदर्थमत्र एका कथा वर्तते तत्र याज्ञवल्क्यः इति कश्चन आसीत् तर्हि एकदा तस्य स्वास्थ्यं सम्यक् नासीत् तस्य तु पत्नीद्वयम् आसीत् मैत्रेयी अपि इति तर्हि तस्य स्वास्थ्यं सम्यक् नास्ति नासीत् इति कृत्वा तस्य पत्नीद्वयमपि तस्य पालनं सम्यक्तया कृतवत्यौ तर्हि किञ्चित् कालानन्तरं तस्य स्वास्थ्यमपि सम्यक् जातम् अस्मिन् जगति केचन जनाः सामान्याः केचन जनाः विशिष्टाः एवमेव मनुष्याः इत्युक्ते पुरुषाः भवतु महिलाः भवतु केचन सामान्याः केचन विशिष्टाः तर्हि यदा तत्र यज्ञवाल्क्यः ऋषिः तस्य सम्य स्वास्थ्यं सम्यक् जातं तदानीं तेन तत्र कात्यायनी इति या पत्नी आसीत् तां प्रति तेन ऋषिणा उक्तं भवती मम कृते बहु किमपि कृतवती मम स्वास्थ्यलाभार्थम् अहं बहु प्रसन्नः अस्मि भवत्याः कृते किमपि दातुम् इच्छामि भवती किम् इच्छति इति सः पृच्छति तदानीं सा पत्नी वदति काद्यायनी इति या पत्नी आसीत् सा तु सामान्या आसीत् सा पृच्छति मम कृते नूतनवस्त्राणि आवश्यकानि मम कृते आभरणानि आवश्यकानि मम कृते एतद् आवश्यकं तद् आवश्यकम् इति तस्य कृते बहु किमपि आवश्यकम् आसीत् इति कृत्वा सा सर्वं वदति एतत् इति तर्हि ऋषिः तेन किं कृतं ऋषिणा किं कृतम् इति चेत् तेन यत्किमपि पृष्टमासीत् तत्सर्वं सः ददाति तर्हि इदानीं खाद्यायनी सा सन्तुष्टा जाता तर्हि इदानीं तदनन्तरं सः गच्छति मैत्रेयीं प्रति सः पृच्छति भवती किमिच्छति भवती अपि मम कृते बहु किमपि कृतवती यदा मम स्वास्थ्यं सम्यक् नासीत् अहं बहु प्रसन्नः अस्मि भवती किम् अहं किमपि दातुम् इच्छामि इति सः पृच्छति भवती किमिच्छति भवती वस्त्राणि इच्छति वा आभरणानि इच्छति वा अन्यत् किमपि इच्छति वा धनम् इच्छति वा किम् इच्छति इति तदानीं मैत्रेयी किमपि न उक्तवती सा एव अभवत् तदानीं ऋषिः पुनः पृच्छति किञ्चित् कालपूर् किञ्चित् काल किञ्चित् कालात् पूर्वं मया तु खाद्यायनीं प्रति एतादृशः प्रश्नः पृष्टः तदानीं सा उक्तवती मम कृते नूतनवस्त्राणि नूतन, नूतन आभरणानि इति एवं रीत्या बहु किमपि आवश्यकम् इति सा उक्तवती तदर्थं मया सर्वं तस्य कृते मया सर्वं दत्तम् आसीत् इति सः उक्तवान् भव इदानीं भव भवती किम् इच्छति वदतु कृपया वदतु भवती किम् इच्छति इति तदानीं मैत्रेयी सा उक्तवती यत्किमपि भवान् उक्तवान् वस्त्राणि आभरणानि एतानि सर्वाणि तु मम पार्श्वे सर्वदा भवन्ति तर्हि एतैः मम अमृतत्वं न जायते न? एतादृशवस्त्रैः अहं किं करोमि मम तु लाभः नास्ति अद्य अस्ति श्वः न भवति तेन मम लाभः न भवति तर्हि किमर्थं मया एतत् इति सा पृष्टवती एतानि एतानि वस्त्राणि अद्य सन्ति श्वः नाशः भवति श्वः पुनः एवं नूतनरूपेण एव न भवति खलु नूतनवस्त्रम् मस्ति, परन्तु श्वः तथा न भवति तर्हि एतादृशवस्त्रैः मम लाभः कः इति कृत्वा वस्त्रं वस्त्राणि मास् मास्तु इति सा एवमेव आभरणानि यानि आभरणानि सन्ति अद्य सम्यक् अस्ति अद्य सम्यक् सन्ति इति भाति परन्तु तस्यापि परिवर्तनं जायते इदानीं पुरातन आभरणानि यानि सन्ति तानि ग्रहीतुम् अहं न इच्छामि यतोहि पुरातनानि सन्ति तर्हि अद्य यत् नूतनमस्ति तत्तु श्वः पुनः पुरातनं जायते अतः तेषां परिवर्तनं सर्वदा जायते अपि च एतानि सर्वदा निरन्तररूपेण तिष्ठ तिष्ठन्तीत्यपि नास्ति इति एतदपि आभरणानि अपि न आवश्यकं मम कृते भवान् बहु उत्तमः अस्ति मम कृते एतत् सर्वं दातुम् इच्छति परन्तु एतानि तु निरन्तररूपेण न तिष्ठन्ति इति कृत्वा एतानि मास् एतानि मास्तु इति सा उक्तवती तर्हि यदा अहम् अस्मात् जगतः यदा अहं गच्छामि यदा मम मरणं जायते तदानीम् एतानि सर्वाणि तु मम पार्श्वे भवन्ति तदानीं अस्मात् अस्मात् संसारात् अहं किमपि गृहीत्वा न गन्तुं शक्नोमि तर्हि एतत् सर्वं त्यक्त्वा एव मया गन्तव्यं तर्हि सर्वं मम कृते मास्तु इति सा उक्तवती तर्हि तर्हि इदानीं ऋषिः अवगतवान् यद् मैत्रेयः सा मैत्रेयः सा भिन्ना काद्यायने तु भिन्ना काद्यायने आसीत् मैत्रेयी तु ीत् तर्हि तर्हि सा पृच्छति मैत्रेयी पृच्छति किमर्थं भवान् एतत् सर्वं मम कृते इति वदति मम कृते ते तत् सर्वम् अनावश्यकं तर्हि तत्र याज्ञवालक्यः सः पृच्छति कृपया वदतु किम् इच्छति भवती इति तदानीं सा वदति तादृशवस्तु मम कृते ददातु यद् मम मम पार्श्वे सर्वदा भवति यद् सर्वदा भवति यदा मम मरणं जायते तदापि मम पार्श्वे भवति येन मुजे येन मम मम कृते अमृतत्वं लभ्यते तादृशवस्तु एव आवश्यकं मम कृते अन्यत् किमपि मास्तु तर्हि एतत् श्रुत्वा यान्यवल्क्यः बहु सन्तुष्टः सः तस्याः कृते तत्र गूढरहस्यरूपेण ब्रह्मविद्यां ददाति तर्हि तत्र किं कर्तव्यं राजयोगे किं किं इति सर्वं विस्तृतरूपेण वदति मैत्रेयी अपि सन्तुष्टा मैत्रेयी अपि सन्तुष्टा जाता तर्हि इदानीं तत्र इत्युक्ते मैत्रेयी सा सम्यक्तया ज्ञातवती तस्य कृते किम् आवश्यकमिति सा ज्ञातवती इति कृत्वा स्पष्टतया सा पृष्टवती मम कृते तादृशवस्तु वस्तु ददातु येन मम अमृतत्वं लभ्यते इति सा पृष्टवती परन्तु सामान्यजनाः तु न जानन्ति किं किम् आवश्यकं किं नावश्यकमिति न जानन्ति सामान्यजनाः न जानन्ति ते तु अनुचितरूपेण लौकिकविषयेषु पृच्छन्ति एतद् ददातु दा तद्ददातु दा इति आसीत् सा तु लौकिक विषयेषु वरं पृच्छ् पृष्टवती सामान्यतया जनाः एवमेव एवमेव भवन्ति एव तत्र लौकिक इच्छाः एव भवन्ति यता तादृशपुरुषेण सह मम विवाहः भवतु तादृशमहिलायाः सह मम विवाहः भवतु अथवा मम धनं भवतु अथवा मम यशः भवतु कीर्तिः भवतु इति एवं रीत्या जनाः पृच्छन्ति तर्हि परन्तु एतादृशविषयाः तु निरन्तररूपेण न तिष्ठन्ति अद्य एतानि सन्ति परन्तु श्वः न भवन्ति तर्हि यथा एकः शिशुः अस्ति सः तु सः तु यदा अग्निं पश्यति तदानीम् अग्निं स्पर्ष्टुमिच्छति शिशुः शिशुः न जानाति यदा अग्नेः स्पर्शनं भवति तदा मम हस्तस्य जलनं भवति हस् मम हस्तः नष्टः भवति इति सः सः शिशुः न जानाति इति कृत्वा सः पृच्छति अहम् अग्नेः स्पर्शनं कर्तुमिच्छामि इति यदि स्पर्शनं करोति तर्हि तत्र दुःखमेव लभ्यते एवम् एतादृशलौकिकविषयेषु इच्छा यदा भवति तदानीं दुःखमेव भवति यतोहि एतादृशविषयाणां नाशः तु भवति एतादृशविषयाः क्षणिकाः अतः सर्वदा निरन्तररूपेण भवन्ति अतः तेषां नाशः सर्वदा भवति यदा नाशः भवति तदानीं तु तत्र दुःखम् एव जायते तर्हि अत्र आध्यात्मिक स्तरे अस्माकम् आध्यात्मिक आध्यात्मिक आध्यात्मिकस्तरं प्रति गन्तव्यं चेत् तत्र किं प्रष्टव्यं परमात्मनं प्रति अस्माकं कः सन्देशः भवेत् इति चेत् अस्माभिः भक्तिः प्राप्तव्या तर्हि अस्माकं सम्भाषणे तत्र भक्तिः एव भक्तिः एव प्रष्टव्या तर्हि मोक्षमार्गे तर्हि मोक्षमार्गस्य शयनं अस्माभिः कर्तव्यं तेन निरन्तरसुखं लभ्यते तेन मुक्तिः लभ्यते तदेव मैत्रेयी मैत्रे इत्यस्याः कथायाम् आसीत् साधकरूपेण वयं किं पृच्छामः किं पृच्छामः परमात्मानम् इति चेत् भक्तिः भक्तिं अन्यत् किमपि न अन्यत् किमपि न परमात्मा तु सर्वं जानाति परमात्मा सर्वज्ञः अस्ति सः तु सर्वं जानाति अस्माकम् अस्माकं किम् इति सः जानाति यतोहि सः तु प्रत्येकं जीवेन सह तस्य सम्बन्धः अस्ति प्रत्येकं जीवेन तस्य सम् साक्षात् यः सम्बन्धः स एव ओतयोगः इति वयं वदामः साक्षात् सम्बन्धः अपि च स सम्पूर्णजगता सह तस्य सम्बन्धः अपि अस्ति अस्माकं सम्बन्धः साक्षात् अस्ति परमात्मना सह अपि च तदेव तत्र ओतयोगः अस्माकं सम्बन्धः सम्पूर्णजगता सह वर्तते अन्येन सह अन्येन अन्येन द्वारा अपि अस्माकं सम्बन्धः अस्ति परमात्मना सह तादृशसम्बन्धः एव प्रुतयोगः इति वयं वदामः स तु सर्वत्र सः तु अन्तः अस्ति बहिः अस्ति सर्वत्र अस्ति तर्हि सर्वत्र अस्ति तर्हि सः सर्वं जानाति अस्माकं किं किम् इति सः सर्वं जानाति अतः किं किमर्थं प्रष्टव्यम् एतत् ददातु तद् ददातु इति किमर्थं प्रष्टव्यं यद् अस्माकं कृते आवश्यकं सः स्वयं ददाति किमर्थं प्रष्टव्यम् यतोहि सः जानाति सर्वं तर्हि सः अस्माकं विषये बहु अधिकं चिन्तनं करोति यद् वयं स्वयं न कुर्मः विषये वयं तावत् चिन्तनं न कुर्मः चिन्तनं परमात्मा अस्माकं विषये करोति यतोहि प्रत्यक्षं प्रत्येकं क्षणं सः चिन्तयति अस्माकं कृते किम् अपेक्ष्य अपेक्षितं किम् एतादृशमनुष्यः किं कर्तव्यं किं करोति अग्रे कि अनन्तरं किं करोति इति चेत् सर्वं जानाति अतः यतोहि सः सर्वज्ञः अस्ति सर्वत्र अस्ति सर्वव्यापि अस्ति सर्वं जानाति सः अस्माकम् अस्माकं मानसिकचिन्तनं कथमस्ति इति सः जानाति अतः किमपि वक्तव्यं परमात्मानं प्रति चेत् तर्हि किं वक्तव्यं सनो बुद्ध्या शुभया संयुनक्तु इति एव वक्तव्यम् इत्युक्ते अस्माकं या या बुद्धिः अस्ति तस्य बुद्धेः परमात्मनि विलीना विलीना भवतु अस्माकं बुद्धिः परमात्मनि विलीना भवतु इति एव अस्माभिः प्रष्टव्यं तदेव तत्र भक्तिः इति वयं वदामः तदानीमेव सृष्टिचक्रे वयं दशवादनात् द्वादशवादनपर्यन्तं गन्तुं शक्नुमः यावत्पर्यन्तं तस्य विषये चिन्तनं नास्ति केवलं लौकिकविषयेषु चिन्तनमस्ति तदानीं वयं तु केवलं मनुष्याः अन्तः पशुः पशवः बहिः मनुष्याः मनुष्यरूपेण पशवः वयं यदा वयं तस्य विषये चिन्तनं तस्य चिन्तनं यदा वयम् आरभामहे तदानीं वयं किं भवामः इति चेत् वयम् अन्तः अपि मनुष्याः बहिः अपि मनुष्याः वयं भवामः तर्हि तस्मिन् एव वयं विलीनाः भवामः यदा तदानीं वयं अन्तः देवाः भवामः बहिः मनुष्याः भवामः तर्हि अत्र यदा इत्युक्ते इत, सारांशः कः इति चेत् अस्माभिः किं प्रष्टव्यम् इति चेत् अस्माभिः तत्र भक्तिः मम मह्यं भक्तिः ददातु मह्यं मम भक्तिः ददातु इति एव अस्माभिः प्रष्टव्यं तर्हि अत्र यद्युक्ते भक्तिः पञ्चविधा भक्तिः अस्ति इति वयं जानीमः तामसिकीभक्ति भक्तिः राजसिकीभक्तिः सात्विकीभक्तिः रागानुगाभक्तिः रागात्मिका भक्तिः इति तामसिकीभक्तिः इति अपरा भक्तिः वस्तुतः भक्तिः एव नास्ति तामसिकी भक्तिः या भक्तिः अस्ति तस्यां वयं किं वदामः तत्र परमपुरुषः अस्ति इति वयं अङ्गीकुर्मः तर्हि वयं वदामः हे परमपुरुषः हे हे परमपुरुषः मम यः शत्रुः अस्ति यः शत्रुः अस्ति तस्य हननं करोतु इति एव अस्माकं प्रार्थना भवति तामसिकी भक्तौ तर्हि तत्र वयं वयं किं वदामः इति चेत् हे परमपुरुषः अहं अहं त्वाम् इच्छामि इति तत्र तादृश तादृश इच्छा न भवति अस्माकम् अस्माकम् इच्छा अस्ति मम शत्रोः मरणं भवतु इति एव इच्छा अस्ति इति कृत्वा तादृशभक्तिः तत्र तामसिकीभक्तिः राजसिकीभक्तिः इत्युक्ते हे परमपुरुषः तत्र मम कृते किमपि ददातु मम कृते एतत् ददातु तद् ददातु धनं धनं ददातु मम पुत्रः ददातु मम पुत्रं ददातु अथवा यत्किमपि इच्छा भवति तस्य तस्य एव अस्माकं तदेव वयं पृच्छामः मम ददातु वयं न वदामः हे परमपुरुषः मम अहं त्वाम् इच्छामि इति तादृश इच्छा न भवति अस्माकम् इति कृत्वा एतादृशभक्तिः राजसिकीभक्तिः अस्ति सात्विकीभक्तौ किं भवति इति चेत् इत्युक्ते कश्चन पुरुष कश्चन मनुष्यः अस्ति तस्य तस्य किम् इति चेत् तस्य तस्य इत्युक्ते तस्य तस्य किम् इच्छा अस्ति इति चेत् तत्र मम स्वास्थ्यं सम्यक् नास्ति मम जीर्णशक्तिः सम्यक् नास्ति इति कृत्वा सः पृच्छति हे परमात्मा अहम् अत्र अस्मिन् लोके जीवितुं न इच्छामि मम कृते मुक्तिं ददातु इति सः पृच्छति यतोहि तत्र लोके यदस्ति लोके ये विषयाः सन्ति तत्र तत्र, तत्र, तत्र तस्य अनुभवः न शक्यते यतोहि तस्य स्वास्थ्यं सम्यक् नास्ति जीर्णशक्तिः नास्ति अग्रे गन्तुं तत्र वृद्धः जातः अग्रे गन्तुं न शक्नोति चलितुं न शक्नोति इति तादृश अवस्थायां सः पृच्छति हे परमपुरुषः हे परमात्मा मम कृते मुक्तिं ददातु इति पृच्छति वस्तुतः सः न इच्छति यद् परमात्मा अहं त्वाम् इच्छामि इति तादृश तादृश इच्छा नास्ति हे परम परमात्मा अहं त्वाम् इच्छामि इति इच्छा इति कृत्वा अत्र त्रिविधभक्तिः यद् इदानीं तत्र चर्च चर्चिता सा राजस्य तामसिकीभक्तिः राजसिखीभक्तिः सात्विकीभक्तिः इति त्रिविधापि भक्तिः वस्तुतः भक्तिः नास्ति यतोहि तत्र स्वार्थः अस्ति तत्र कीदृशभक्तिः अस्माभिः प्रष्टव्या इति चेत् तत्र केवला भक्तिः केवला भक्तिः तत्र केवला भक्तौ रागानुगाभक्तिः रागात्मिका भक्तिः इति रागानुकभक्तौ किं वयं वदामः इति चेत् तत्र रागानुग रागानुगभक्तिः अपि उच्छाभक्तिः एव तत्र वयं किं वदामः इति चेत् हे परमात्मा अहं त्वाम् इच्छामि किमर्थम् इति चेत् मम कृते आनन्दः लभ्यते तत्र आनन्दः लभ्यते इति कृत्वा अहं त्वाम् इच्छामि तर्हि तत्रापि किञ्चित् तत्र स्वार्थः यद्यपि तत्र भक्तिः उत्तमाभक्तिः एव परन्तु तत्र स्वार्थ स्वार्थभावना किञ्चित् अस्ति यतोहि अहं त्वाम् इच्छामि अहं त्वाम् इच्छामि परन्तु किमर्थम् इच्छामि इति चेत् मम कृते आनन्दः लभ्यते इति कृत्वा अहं त्वाम् इच्छामि इति रागानुगाभक्तिः रागात्मिकाभक्तौ तत्र साधकः किमपि न भक्तः किमपि न इच्छति सः इति चेत् हे परमात्मा अहं त्वाम् इच्छामि अहं तव प्रीत्यर्थम् अहं प्रयत्नं करोमि तव प्रीत्यर्थम् अहं प्रयत्नं करोमि अहम् अन्यत् किमपि न इच्छामि केवलं तव प्रीत्यर्थम् अहं प्रयत्नं करोमि अन्यत् किमपि न इच्छामि इति कृत्वा इयमेव तत्र रागात्मिका भक्तिः इति वयं वदामः तर्हि अत्र पञ्चविधभक्तिः इति पृच्छन् तर्हि अन्ततो गत्वा अत्र किं परमात्मानं प्रति किं प्रष्टव्यम् इति चेत् केवलं भक्तिः एव अस्माभिः प्रार्थनीया भक्तिः मम कृते भक्तिं ददातु इत्येव प्रार्थनीया न तु अन्यत् किमपि अन्यत् धनं वा भवतु वस्त्रं वा भवतु अथवा यत्किमपि लौकिकविषयः भवतु तस्य कृते अस्माकम् इच्छा न भवेत् इत्येव अत्र सारांशः अतः अत्र अस्मिन् जगति केचन जनाः सामान्याः अति इत्युक्ते प्रायेण जनाः सामान्याः ते किं पृच्छन्ति इति चेत् लौकिकविषयेषु एव तेषां प्रार्थना भवति परन्तु केचन जनाः विशिष्टाः के ये तु भक्तिम् इच्छति केवलाभक्तिम् इच्छ केवलभक्तिम् इच्छन्ति के केचन जनाः यत्र विषयः अस्ति तर्हि इदानीं भगिनि केवलभक्ति रागा भक्ति समान रागानुगाभक्ति रागात्मिका भक्तिः इत्युक्ते उभयत्र ते परमात्मानमेव इच्छन्ति रागानुगाभक्तौ अपि रागात्मिकाभक्तौ अपि परमात्मानम् इच्छन्ति परन्तु भेदः कः इति चेत् रागानुगाभक्तौ सः भक्तः परमात्मानम् इच्छति किमर्थम् इच्छति इति चेत् यतोहि तस्य कृते आनन्दः लभ्यते परमात् परमात्मनः चिन्तनेन तस्य कृते आनन्दः लभ्यते इति कृत्वा सः इच्छति परन्तु रागात्मिकाभक्तौ सः किमपि न इच्छति केवलं परमात्मनः तृप्त्यर्थं तस्य भक्तिः वा केवला भक्ति समान पर्यायवाचि भवति अर्थ केवलाभक्तौ केवलभक्तौ वेदद्वयमस्ति रागानुकभक्तिः रागात्मिका भवत्याः ध्वनिः न श्रूयते भगिनि केवला भक्ति प्रभेदद्वयं भवति एक अस्ति रागानुत्म रागात्मका अन्यमस्ति रागात्मकादि भक्ति न न द्वि द्विविध द्विविध द्विविध भक्तिः अस्ति केवलभक्तिः रागानुगा रागा रागानुगा रागा रागात्मिका रागानुगा रागात्मिका इति भक्तिः ओके धन्यवादः अस्तु भगिनी धन्यवादः तर्हि इदानीम् अस्माकं करपत्रं प्रति गच्छामः तर्हि एकसरम् अहं स्क्रीन् शेर् करोमि निश्चितमेव नमस्ते इदानीमस्ति हा स्क्रीन् दृश्यते चेत् अत्र किं कुर्मः सरला भगिनी अत्र अन्य अन्य ओके भगिनी okay. okay. इत्युक्ते अत्र वस्त्री दृश्यते चेत् अत्र किं कुर्मः इति चेत् अस्मिन् जगति मनुष्यः कथं जीवेयुः दृश्यते इदानीम् ओके okay. okay. okay, okay. अस्मिन् जगति मनुष्यः कथं जीवेयुः इत्यस्मिन् पुनः एकवारं किं कुर्मः इति चेत् झटिति एकवारं पठित्वा अग्रे गच्छामः सम्पूर्णतया वक्तव्यम् इति नास्ति किमपि वक्तव्यम् इति नास्ति एकवारं भवती पठतु तदनन्तरं एकवारं पठतु तदनन्तरं अधिकं यत्र पूर्वं किञ्चित् पूर्वमेव पठितमासीत् खलु अतः पुनस्मरणत्वेन किञ्चित् एकवारं पठित्वा अग्रे ओके मनुष्याणां पूर्ण पूर्णतया प्रतिबिम्बितं ते, चैतन्य वर्तन एव मनुष्यात अपि भेद ची भवन्ति, शुभं अशुभं चपेक्षक विचार अस्थम किं चशुभ निर्धारित वह जानी सगुण ब्रह्मव प्रत्येक जीवात्मा मुक्त सै इति उद्देशेन सगुणब्रह्मणा सृष्टि आनिता, एतेन एव अभिप्रायेण स्थूलात् सूक्ष्मस्य गतेः अन्तिमावस्थायां कतिपयानाम् एकानाम् प्रतिनिधित्वम् कुर्वन्तः मानवाः पूर्णतया प्रतिबिम्बितेन जीवात्मना सह प्रकटीभवन्ति सूक्ष्मं प्रति प्रगति भगिनी इति स्क्रीन् हा हा हा भगिनि अत्र किमपि जातं मानवः पूर्णतया प्रतिबिम्बितेन जीवात्मा जीवात्मना सह प्रकृतिः भवन्ति सूक्ष्मं प्रति प्रगतिः यदा भवति तदा जीवात्मनि प्रकृतेः प्रभावः भवति ून होती यशा युद्ध पशूनापेक्षा मनुष्याण जीवात्म प्रकृते हे प्रभाव न्यून होतीम दया कारण जीवात्म प्रकृते प्रभाव न्यूनमी स्पष्ट प्रकृति सगुण ब्रमण से सृष्टे आरंभे संधि कृतव सै स्याताम् श्यात, यतो हि तदा एव एतत् सम्भवति अन्यथा प्रकृतिः यस्याः स्वभाव एव यथाशक्ति पुरुषस्य गुणान्वयकरणम् पुरुष स्वप्रभावात् न मुञ्चति स्म यद्यपि सृष्टि अवस्थायां। यत्र यथूला सूक्ष्म प्रति गति तकृति स्वेच्छया स्वबंधना चैतन्यम पुरुषम मुंचती दृश्य से तथा जीवात्मा बंधने ये स्थूला सूक्ष्म प्रति गति नप्ता यदि वशीकृतायां अवस्था काचिच चेतन सता स्वतंत्रतया कार्य कहो तरी प्रकृतिया स्वभाव तर दंडन असर दंड से फलस्वरूप जीवात्म सूक्ष्मता प्रति अग्रे विसत्मिक प्रभावता प्रभावित सो अत्रापि इति दत्तमस्ति मनुष्य पशुता पशुभ्य इति योनिम् आगच्छति सो तस्य प्रगतिः भवति यदि प्रगतिः भवति चेतन स्पष्टी भवति प्रतिबिम्बचेतनस्य मनुष्याम् मनुष्य मनसि तत्र यदि प्रतिबिम्ब स्पष्टमस्ति इदानीम् कोऽपि मनुष्येन सूक्ष्मतया सूक्ष्मं प्रति तस्य प्रगतिः भवेत् इत्यस्य कारणे सगुरब्रह्मस्य कृपा इत्यस्य आवश्यकता अस्ति तस्य विना न भवति अपि मनुष्य ये ये सः आगच्छति तत् फलानि तस्य तेन भोक्तव्यं भवति गति कथा भवेत् इति तस्य दण्डरूपेण इति भवति कर्म कर्मफलस्य दण्डरूपेण आगच्छति गति तस्य प्रगति सूक्ष्मप्रति इति अस्ति साधु आम् आम् इत्युक्ते अत्र किमस्ति इति चेत् मनुष्यः सृष्टिचक्रे तस्य गतिः अस्ति तत्र षड्वादनात् द्वादशवादनपर्यन्तं तत्र जीवाः आविर्भूताः प्रकृतेः प्रभावात् तर्हि दशवादने मनुष्याणाम् आविर्भावः अस्ति यद्यपि मनुष्येषु सत्त्वगुणस्य प्राधान्यम् अस्ति परन्तु तथापि इतोपि ते बन्धने एव सन्ति अत्र mm -hmm. प्रतिसञ्चरधारायां सत्त्वगुणस्य प्राधान्यम् अस्ति तथापि दशवादने मनुष्येषु तत्र मनुष्येषु प्रकृतेः प्रभावः इदानीमपि अस्ति तर्हि यावत्पर्यन्तं सत्त्वगुणः यावत्पर्यन्तं गुणः अस्ति तावत्पर्यन्तं ते बन्धने एव भवन्ति अतः इत सम्पूर्णतया ते मुक्ताः न सन्ति अतः यदा ते स्वतन्त्रतया कार्यं कर्तुम् इच्छन्ति तदानीं प्रकृतेः तत्र प्रकृतेः नियमस्य विरोधः भवति विरोधः भवति चेत् तर्हि दण्डनमेव अवश्यं भवति प्रकृतिः तु दण्डयति एव mm -hmm. तर्हि कर्मफलरूपेण तेषां दण्डनं तु भवति एव तर्हि यदा दण्डनं भवति तदानीम् अग्रगतिः न भवति तर्हि अधोगतिः न अधोगतिः भवति तदानीं तेषां मार्गः तु मुक्तिमार्गे तेषां गमनं न भवति तर्हि विपरीते गति अधोगतिः एव तेषां भवति खलु mm -hmm. okay, अग्रे सृष्टौ यत्र चैतन्यस्य प्रतिबिम्बं स्पष्टतरं भवति तत्र प्रकृतिप्रभावः न्यूनः अस्ति इति अवलोकितम् यदि जीवात्मा चैतन्यस्य प्रतिबिम्बं विस्तारयितुं विकासयितुं न च शक्नोति तर्हि सूक्ष्मताम् सूक्ष्मता वेगती यहाँ जीवात्म प्रकृति प्रभाव न्यूनी होती तदा जीवात्मा शीघ्र पूर्णसूक्ष्मी स्म अतः सत्कर्मा तीन चैतन्य प्रतिबिंब विस्तरय प्रकृति विरद्धगमन विना प्रकृति अ तथा च तस्याः आज्ञानुसारं कार्यकरणं कर्मणां कर्मफलानां स्वरूपं दुःख निवारयति यदि चेतनायाः प्रतिबिम्बस्य घनत्वस्य वर्धनेन प्रकृति धारणं न्यूनी भवति अनेन अतीवशीघ्रं कश्चन परमपदं गन्तुं शक्नोति यानि कर्माणि कश्चित् कर, कञ्चित् प्रकृतिनियमानां न्यमाना, नियमानां अनुसरणं कारयन्ति तथा च चैतन्यप्रतिबिम्बस्य घनत्वं वर्धयन्ति तानि उत्तमकर्माणि आदर्शकर्माणि इति उच्यन्ते एतानि कर्माणि विद्यामाया इति अपि उच्यते तु यथा भवती उक्तवती एकं वाक्यमस्ति भगिनि एतानि कर्म विद्यामाया वैराग्यविवेकयोः सह सम्बन्धः अस्ति तो विद्यामाया किम् अस्ति विद्यामाया यत्र दशवादन द्वादशवादनं पर्यन्तं मुक्ति प्रति यदि साधना भवति प्रगति भवति तत्र यत् कर्माणि कुर्मः आदर्शकर्माणि तत्र विद्यामाया भवति किन्तु विद्यामाया कथं करणीयं तस्य कृते विवेकवैराग्य तस्य प्रयोगः भवेत् इत्युक्ते विवेकवैरागविना विद्यामाया या कर्माणि भवन्ति ते आदर्शकर्माणि न भवितुं शक्नोति शुद्ध विशुद्ध मनः न भवति विवेकवैराग्यविना तु इति अस्ति सो यदि विशुद्ध विद्यामाया अनेन चित्तं शुद्धं भवति चित्तं शुद्धं भवति तत्र प्रतिबिम्बमपि स्पष्टं स्पष्टीरूपेण प्रकटीभवति इति अस्ति तस्य प्रतिबिम्बघनत्व वर्धनं भवति घनत्वस्य इति अस्ति दत्तं यदि इति न भवति तस्य विपरीतं भवति कर्माणि यदि आदर्शकर्माणि नास्ति परमात्मनः प्रति प्रत, इच्छा नास्ति कर्माणि विषयान् प्रति भवति तत्र अधोगति भवति तदा समीचीनं भगिनी अत्र इतोपि एकं वक्तव्यं यत् अत्र अत्र विषयद्वयम् आवश्यकमस्ति अग्रगति दशवादनात् द्वादशवादनपर्यन्तं गन्तव्यं चेत् अत्र विषयद्वयम् अवेक्ष अवश् आवश्यकम् एकः तु अस्माकं प्रतिबिम्बस्य विस्तारः तत्र चैतन्यस्य यः प्रतिबिम्बः अस्ति तस्य इतोपि स्पष्टतया विस्तारः आवश्यकः अस्ति एकं द्वितीयं तु प्रकृतेः नियमानां पालनम् इति विषयद्वयम् खलु विषयद्वयम् आवश्यकं चैतन्यप्रतिबिम्बस्य विस्तारः प्रकृतिनियमस्य विरुद्धगमनं विना प्रकृतिः तत्र प्रकृतिः किम् इच्छति दशवादने प्रकृतिः किम् इच्छति प्रकृतिः इच्छति यद् अस्माकं गमनम् अग्रे भवेत् इति एव इच्छति खलु तर्हि तदनुगुणम् अस्माकं व्यवहारः नास्ति चेत् तद् प्रकृतिविरुद्धः अस्ति इत्युक्ते अग्रे गमनार्थं किम् अपेक्षितम् इत्युक्ते सात्विक आहारः अपेक्षितः अस्ति अग्रे गमनार्थम् अस्माकं मनः सात्विकं सात्विकम् अस्ति चेदेव अग्रे गन्तुं शक्नुमः तर्हि तदनुगुणम् अस्माकम् आहारः नास्ति विरुद्धहारं स्वीकुर्मः तदानीं प्रकृतेः नियमानां पालनं नास्ति प्रकृतेः विरोधः अस्ति प्रकृतेः विरोधः अस्ति चेत् तत्र प्रयत्नमपि नास्ति तत्र चैतन्यस्य विस्तारार्थं प्रयत्नं चैतन्यस्य यः प्रतिबिम्बः अस्ति तस्य विस्तारा विस्तारार्थमपि प्रयत्नं प्रयत्नः नास्ति इति कृत्वा अग्रगतिः न भवति अस्तु खलु तदर्थमेव विवेकः वैराग्यम् वा अपेक्षितं विवेकः अस्ति चेत् वयं निर्धारयितुं शक्नुमः ओ मया सात्विक आहारः एव स्वीकर्तव्यः सामसिकाहारः न स्वीकर्तव्यः यतोहि तत्र तामसिकाहारस्य ग्रहणेन मम अधोगतिः भवति अग्रगतिः न भवति प्रकृतिः इच्छति तत्र सृष्टिचक्रे स्पष्टतया प्रकृतिः पुरुषः द्वौ द्वौ अपि किं द्वावपि किम् इच्छ इच्छतः इति चेत् अस्माकम् अग्रगतिः भवति इत्येव तेषामपि इच्छा अस्ति अग्रगतिः भवतु तेन अस्माकमपि मुक्तिमोक्षः भवतु इति एव तेषां तयोः अपि इच्छा वर्तते परन्तु तदनुगुणम् अस्माकं व्यवहारः नास्ति वयम् अग्रगति प्राप्तुं वयं प्रयासं न कुर्मः तर्हि अस्माकं व्यवहारः अधोगतिं प्राप्तुम् अस्माकं व्यवहारः अस्ति चेत् अधोगतिः भवति तत्तु प्रकृतेः नियमस्य विरोधः अस्ति खलु इत्युक्ते तत्र इत्युक्ते प्रकृतिः इच्छति यद् अस्माकं व्यवहारे रात्रौ अस्माकं निद्रा भवतु इति अस्माकं प्रकृतेः नियमः अस्ति तत्र याव याव या, या, निद्रा अपेक्षिता तावती निद्रा अस्माभिः स्वीकर्तव्या परन्तु वयं रात्रौ अपि बहिः गच्छामः चित्रम चल चलचित्रं चलचित्रं पश्यामः अथवा अन्यत् किमपि कुर्मः निद्रां त्यक्त्वा तत्तु प्रकृतेः नियमस्य विरोधः अस्ति खलु आप, तर्हि इति एवं रीत्या यदा वयम् अस्माकं व्यवहारः प्रकृतेः नियमस्य विरोधे अस्ति अपि च साधनामपि वयं न कुर्मः अस्माकं चैतनस्य प्रतिबिम्बस्य विस्तारार्थं तर्हि तत्र प्र तत्र सम्पूर्णतया विरोधगमनम् अस्ति अतः सृष्टिचक्रे अग्रगतिः न भवति मुक्तिमोक्षः तु न भवति एव तर्हि तत्र कीदृशकर्माणि अपेक्षितानि तदर्थम् इति चेत् अत्र उत्तमकर्माणि उत्तमकर्माणि विद्यामायाः सहाय्यम् अपेक्षितम् अग्रगतिं प्राप्तुं विद्यामायाः सहाय्यम् अपेक्षितम् मायायां प्रकृति प्रकृतिः सर्वदा इत्युक्ते दुष्टा इति नास्ति यद्यपि प्रकृतेः बन्धनम् अस्ति प्रकृतिः सर्वदा दुष्टा इति नास्ति प्रकृतेः सहायम् अपेक्षितमस्ति अग्रगतिं प्राप्तुं विद्यामायाः सहायम् अपेक्षितम् तावत् कि द्वादशवादनात् पूर्वं किञ्चित् प्राप्तव्यं चेत् विद्यामायाः सहायम् अपेक्षितम् अविद्यामायायाः सहायेन तु अदोग अधोगतिः भवति विद्यामायाः सहायेन अग्रगतिः भवति किञ्चित् पर्यन्तम् अग्रगतिः भवति तदा ततः अग्रे परमात्मनः सह ऐक्यं प्राप्तव्यं चेत् तदानीं गुणातीतस्थलम् अस्माभिः प्राप्तव्यम् ओके okay. अस्तु अग्रे भगिनि वैराग्यं सामान्यतया संसारात् निर्वृत्ति अपि च अर्थ अति तपः कृत्वा कठोरत्यागेन जीवन जीवनयापनम् इति अस्मिन् अर्थे अवगम्यते वैराग्यम् इत्यस्य एवम् अर्थः नास्ति वैराग्यं कञ्चित् एकान्तवासिनः वासिनं न करोति वैराग्यम् इत्युक्तौ केवलं वस्तूनाम् उच्यते उ उच्यत उपय ज्ञान अभी चा उचित प्रयोग करयत्न अवश्य मनसस्थूलाना विषयाण नि कार्य विनाथ यथा उदाह मह्यम मध्यम एकदक द्रव्य शरीर मनसो विषय हानिकारक अस्त अत मध्य बाधक प्रयोग त्यक्त यदा वैद्याः विविधरो रोगाणाम् औषधौ मध्यम् उपदिशन्ति तदा मादकम् मध्यम् रोगिणां दुःखनिवारणार्थम् औषधम् भवति एवं तदेव मद्यम् स्वस्य प्रयोगभेदद्वारा हानिकारकमादकद्रव्यात् उपयोग उपयोग औषधरूपेण स्वस्य चरित्रम् मध्यस्य औषधत्वेन प्रयोगः एव तस्य उचित उपयोगः अस्ति यः कोऽपि औषधरूपेण मध्यस्य प्रयोगं करोति सः मध्यस्य प्रभूतप्रभावे आत्मानं न स्थापयति वस्तुना सम्यक् प्रयोग एव वैराग्यं वैराग्यविचारा अन्तरगते कस्यचित् वस्तुनः उचितप्रयोगेन कस्यचित् मनः सूक्ष्मं भवति कस्यचित् मनः वस्तुन निरन्तरकाङ्क्षाया निरन्तराकाङ्क्षायां न भवति कश्चन विषये उदासीन भवति उदासीनतायाः विकासेन अथवा निरन्तरस्थूलवस्तुभिः कश्चन अनाकृष्ट तस्य मनः भवति मनसः गति प्रति इति उक्तौ मनस उपरि प्रकृतेः प्रभावस्य न्यूनता साच मुक्ति प्रति प्रगति यहा मुक्ति एव तभवती यदा कशन प्रगति प्रभा मुक्त तो इदान वैराग्य कृते दत्मस् वैरागे ए कः कुत्रापि यत्र एकान्ता तत्र गन्तव्यं <laughs> संसारस्य त्यागकृत्वा गन्तव्यं वा इति नास्ति शरीरस्य बहु कष्टं दत्वा तिष्ठितम् <laughs> वैराग्य माना नास्ति तस्य अर्थमिति अस्ति यत् वस्तूनि प्रति आकाङ्क्षा अस्ति तत् आकाङ्क्षा शनैः शनैः न्यूनीकृत्वा तस्य प्रति आसक्तिः न भवेत् इति वैराग्य अर्थमस्ति विरागः यथा भवति अस्माभिः उक्तवती वैराग मीन्स् विराग विशिष्टे आसक्तिः त्याग इति भवति विराग विरागस्य uh, भावः विरागस्य भावः इति अस्ति वैराग्य इति इस, अनेन एव अस्माभिः स्थूलतया सूक्ष्मतया पर्यन्त सूक्ष्म सूक्ष्म सूक्ष्मपरपर्यन्त सू, पर्यन्तं प्रगति भवति अनेन सम्यक् भगिनी सम्यक् निरन्तरम् इति अस्माभिः प्रयासः करणीयं न तु कदापि कर्तव्यं कदापि न कर्तव्यमिति न भवति इण्टर्मीडियन् न भवेत् इत्युक्ते वैराग्यमित्युक्ते जगतः त्यागः इति नास्ति वैराग्यम् इत्युक्ते जगति एव वयं वासं कुर्मः तथापि विषयेषु अस्माकम् आसक्तिः न भवति विषयेषु रागः न भवति अस्माकं मनः तु भवति परन्तु जगति वसामः अत्र उदाहरणं दत्तमस्ति यथा मदुरा इति अल्कहाल् भवति तत्र औषधरूपेण इति साधु अस्ति किन्तु यदि वयं मध्यस्य प्रभावेन आगच्छामः तत्र इति हानिकारक भवति सम्यक् सम्यक् देख अस्तु अग्रे भगिनि अहम् एक एकचित्रं भगिनी अन्य कोऽपि पठितुमिच्छति वा कुमारमहोदय अथवा स्वामीजी अथवा चित्रभक्तिः अस्ति पठितुमिच्छति एक पेशण्ट् आसीत् सा इति बहु अल्कहालिक् तदनन्तर तस्य कृ तस्या धनं नासीत् अल्कोहाल् सा न क्री क्रेतुं शक्नोति काफ् सिरप् काफ् सिरप् इस् एटि पर्सेण्ट् अल्कोहाल् using that my god and mm. uh, she drank so much and then she came uh in uh in the boys i mean she came under the influence of that we had to really do a piece of the time and then she came under the influence of that we had to really do a piece of the time सुभासुभयोः मध्ये विवेचनम् एव विवेकः मध्यस्य मादं जनयितुं प्रयोगः इति आलोचना दोषाय अस्ति तस्यैव च औषधत्वेन प्रयोगः इति विचारः साधु। एतादृशं विवेचन एव विवेकः एकमेव वस्तु किञ्चित् अग्रेणति वा एकमेव वस्तु प्रयोगपरिवर्तनेन शुभाशुभं वा भवितुम् अर्हति तयोः मध्ये विवेचनम् अस्ति विवेकः विवेकेन एव मनः एकस्मिन् वस्तूनि तद्भवता अथवा दुष्टता अथवा तस्य उपयोगिता निर्धारयितुं शक्यते अतः वैराग्यस्य अनुसरणं कर्तुं विवेकः आवश्यकः मुक्तिं प्राप्तुं वैराग्यस्य महत् वर्तते एवं वैराग्यविवेकौ एव तत्कर्मणि अथवा विद्यामाया अस्ति अग्रे यत् अस्माभिः चिन्तितमस्ति कथम् अग्रगतिः भवेत् वैराग्यः कथं जायते वैराग्यः इत्युक्ते यद् चर्चितवन्तः तत्र कर्मस्य त्यागः न कर्मफलस्य एव अतः इदानीं यत्किमपि तेन भावं कथं जायते तत्र विवेकस्य उपयोगं करणीयं यदा शुभं यत् कार्यम् उचितं वा अनुचितं वा तत् किञ्चित् चिन्तयित्वा एव तस्य तद् निर्धारयित्वा यदा अस्माभिः विवेकस्य प्रयोगं कर्तुं शक्यते तत्र तत् सत्कर्मणि इति ज्ञायते तदेव विद्यामाया अस्ति विवेकस्य उचितप्रयोगेण एव वैराग्यस्य उत्पत्तिः भवति इति चिन्तनमस्ति हा हा सम्यक् सम्यक् इति अत्र विद्यामायाः सहायं सर्वदा अपेक्षितम् अत्र विवेकः वैराग्यम् इति सर्वदा स्मर्तव्यम् अत्र अस्माकं जीवनेषु तादृशपरिस्थितिः सर्वदा आयाति तदानीम् अस्माभिः अपि विवेकस्य प्रयोगः करणीयः एतादृशवस्तुनः उचितः प्रयोगः कः अनुचितः प्रयोगः कः इति प्रथमतया निर्धारितव्यम् तदनन्तरं तदनुगुणं तत्र तादृशविषय विषयस्य वस्तुनः प्रयोगः करणीयः अपि च अस्माकं मनः तु तस्मिन् विषये न भवेत् अस्माकं मनः तु परमात्मनि लीनं भवेत् उचितवस्तुनः उचितः उपयोगः कः इति ज्ञातव्यः तादृश उपयोगः करणीयः मनः तु सर्वदा परमात्मनि भवेत् अस्तु भगिनि अग्रे अपि दुष्कर्मणि अथवा अविद्यमाया विद्यमायायाः विपरीतं कर्मणि यानि चैतन्यस्य प्रतिबिम्बं मन्दं कुर्वन्ति अपि च प्रकृतेः नियमविरुद्धं गन्तुं नयन्ति तानि दुष्कर्माणि सन्ति विकासः इत्युक्तौ केवलं चैतन्यस्य प्रतिबिम्बं स्पष्टतरम् अपि च धनत्वेन अधिकं भवति यतोहि मनः सूक्ष्मतरं भवति एतद्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 प्रकृते प्रभाव अतिक यीवा अग्रगति स्थगिताकृतेरुद्ध कर्म नये तूक्ष्मतास स्थगयन किम चेत प्रकृते दूषण से दंड पिणा अग्रगते अभोक्तव जीवात्मा च तत्कालं यावत् सूक्ष्मतां प्राप्तुं निरुद्धः भवति तत्र केन कर्मणि किम जायते अत्र दत्तमस्ति अविद्यमाय इत्युक्ते किम अविद्यमाया इत्युक्ते यद् दुष्कर्माणि कुर्मः वयम् उचितमनुच्छं तद् न चिन्तयित्वा यत्किमपि अस्माकं सुखं जनयति तादृशं कार्यं कुर्मः चेत् तद् भवति कर्मणि तत्र अस्माकं मनुष्यस्य धर्मः अस्ति चैतन्यस्य प्रतिबिम्बं स्पष्टतया भवति मनुष्येषु परन्तु एतादृशदुष्कर्मणि कुर्वन्ति चेत् भवति तदपि अस्माकं गतिः सूक्ष्मतां प्रति यद्गतिः अस्ति तदपि स्थगयित्वा अस्माकम् अधोगति करोति अधोगतिं प्रति अस्माकं नयति अतः यदा वयं उचितकर्मणि कुर्मः तत्र सूक्ष्मतां प्रति अस्माकं गतिभेदः वर्धते परन्तु विपरीतं भवति यदा दुष्कर्मं कुर्मः तत्र अधोगतिः न भवति अधोगति प्रकृतेः दण्डनं रूपेण अस्माकम् अधोगति स्थगयित्वा अस्माकम् ऊर्ध्वगति स्थगयित्वा अधोगतिं कारयति प्रकृति अतः तत्र चैतन्यस्य अपि प्रतिबिम्बं मन्दं भवति तत्र सूक्ष्मतां प्रति अस्माकं गमनं न भवति स्थूलमेव भवति मनस्य स्थूलीकरणमेव भवति सम्यक् भगिनी सम्यक् समीचीनं हा सम्यक् सम्यक् सम्यक् इत्युक्ते प्रकृतिः किम् इच्छति इति चेत् अस्माकं मनः सूक्ष्मं भवतु इति एव सा इच्छति तर्हि अस्माकं व्यवहारः प्रकृतिनियमानुगुणं यदा भवति तदानीम् अस्माकं मनः अपि मनस् मनसः अग्रगतिं प्राप्तुं वातावरणं सम्यक् भवति तदानीं वयं साधनामपि कुर्मः चेत् तदानीं मनः सूक्ष्मं भवति अग्रगतिः सुलभेन भवति परन्तु प्रकृतेः नियमानां विरुद्धे गच्छामः परन्तु साधनां कर्तुं वयं प्रयत्नं कुर्मः तदानीं वातावरणं सम्यक् नास्ति चेत् साधनायाः करणेन अपि अग्रगतिः प्रयण न भवेत् यत् साधनायामपि अस्माकं मनः विलीनं न भवति लग्नं न भवति यतोहि वातावरणं सम्यक् नास्ति मनसः अग्रगतिं प्राप्तुं वातावरणं सम्यक् नास्ति चेत् साधनायाम् अग्रगतिः न भवति अतः द्वयमपि तत्र एकः एकः पक्षिणः किं विङ्ग्स् आफ़् द से टु विङ्ग्स् द सेम् बर्ड् इति वदामः तथा अस्ति अतः साधनायाम् अग्रगतिं प्राप्तव्यं चेत् तदानीं प्रकृतेः नियनां नियमानां विरुद्धे अस्माकं गमनं न भवेत् तर्हि द्वयमपि अस्ति चेदेव अग्रगतिः भवति तदर्थम् उत्तमकर्माणि अपेक्षितानि तादृशकर्माणि इत्युक्ते विद्यामायाः सहायम् अविद्यामायाः सहायं स्वीकुर्मः चेत् किं भवति इति चेत् साधनामपि साधनमपि न कुर्मः प्रकृतेः नियमानामपि पालनं न कुर्मः तर्हि तत्र अविद्यमायाः सहायम् अविद्यमायाः सहाय सहायेन मनः सूक्ष्मं न भवति स्थूलं भवति स्थूलं भवति चेत् तत्र अग्रगतिः न भवति कर्मफलानि बहूनि भवन्ति तर्हि कर्मफलचक्रे वयं पतामः अस्तु तर्हि अस्तु अहं चिन्तयामि अत्र अत्रैव स्थगनं कुर्मः अद्य इतः अग्रिमसप्ताहात् वयं स्वीकुर्मः इदानीमपि पुनस्मरणमेव जायमानम् अस्ति तर्हि प्रायः प्रायः अग्रिमसप्ताहे वयं समापयिष्यामः अत्र कोऽपि वक्तव्यं किमपि वक्तव्यं वा तर्हि अत्र स्थगनं कुर्मः इदानीं विरमामः धन्यवादः नमस्कारः नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः